श्रीमद्भागवत् महापुराणं दशस्कन्ध अथ षट्चत्वारिंशोऽध्यायः उद्धौजी कीभृतयात्रा श्रीशुकुवाच विष्णीणां प्रवरो मन्त्रे कृष्णस्य दहितशखा शिष्यो बृहस्पतेः साक्षात् उद्धवो बुद्धिसत् नमः समाह भगवान् प्रेष्टं भक्तमेकान्ति क्वचिन् गृहीत्वा पालिना पालिम् प्रपन्नार्तिहरो हरिः गच्छोद्धौ व्रजं सौम्य पित्रोर्णौ प्रीतिमावह गोपीनाम् मद्भियोगाधिम् मत्सन्देशैर्विमोचय तामन्मनस्कामत्प्राणामदर्थे त्य दैहिकाः मामेव दयितम् प्रेषम् आत्मानम् मनसागताः ये तक्तलोकधर्माश्च मदर्थे तान् विभर्म्यहम् मयिता प्रेयसां प्रेषे दूरस्थे गोकुलस्त्रियः स्मरन्तोऽङ्गह्यन्ते विरहोत्कण्ठविफलाः धार्यन्त्य चिकृत्थेण प्राय प्राणान्कथञ्चन प्रत्यागमनसन्देशैर्बल्लभ्यो मे स्मधात्मिकाः शेषोकुवाच इत्युक्त बुद्धवो राजन् सन्देशम् भरतु राजितः आदाय रथमारुह्य प्रियो नन्दगोकुलम् प्राप्तो नन्दव्रजम् श्रीमान्यम् लोचति विभावशौ धन्ययान प्रविशताम् पशूनाम् कुरुरेणुभि वासितार्थेऽपि युध्यद्भिर्नानिन्दितम् सुस्मिभिर्विषय धावीभिश्च बास्त्राभिरुधोधा भारेषु सत्करान् इतस्ततो विलङ्घद्भिर्गोवस्त्रिमण्डितम् श्रितैः गोदोहशब्दाभिरवम् वेणूनांश्वरेण च गायन्तिभिश्च कर्माणि शुभानि बलकृष्णयोः स्वालङ्कृताभिर्गोपीभिर्गोपैः स सुविराजितम् अग्न्यर्कातिथे गोवी प्रवृत्रै पितृदेवार्चनार्वितैः धूपदीपै समालेश्च गोपावासै मनोरमम् सर्वत पुष्पितवनम् द्विजाले कुलनार्जितम् हंसकारण्डवाकिरणैः पद्मपर्षडैश्च मण्डितम् तमागतं समागम्य कृष्णस्यानुचरं नन्द प्रीत परिस्रज्य वासुदेवधियार्जयत् भोजितम् परमान्येन शमिष्टम् कशिपौषुकम् गतश्रमम् पर्युप्रेक्षत पादसंवाहनादिभिः कश्चिदङ्गामहाभागसखानशूरुनन्दनः आस्ते कुशल्यपत्याद्य उक्त्वा मुक्त सुहृद्यत दृष्ट्या कंसो हत पापसानुगस्वेन पाप्मना साधूनां धर्मशीलानां जदूनां द्वेशीय सदा अपि स्मरति न कृष्णो मातरं श्रीदसखिं गोपाण्डजं चात्मनाथं गावो वृन्दावनं गिरिम् अप्याया श्री गोविन्द स्वजनान् सकृतिदीक्षितुम् तर्हि दक्ष्याम तद्वक्त्रम् सुनृतम् सुस्मृते क्षणम् दावाग्निर्वातवर्षाश्च मृतसर्पाश्च रक्षिताः दुरत्ययेभ्यो मृत्युभ्य कृष्णेन सोमहात्मनाम् स्मरताम् कृष्णमिर्याळी लीलापाङ्गनिरीक्षितम् हसितम् भाषितम् चाङ्ग सर्वान् शिथिलाक्रियाः सरिच्छैलवनुद्देशान् मुकुन्द पदभूषितान् आक्रीडानि क्षमाणानाम् मनो याति तदात्मताम् मन्ये कृष्णम् च रामम् च प्राप्तविह सुरोत्तमौ सुराणाम् महतार्थाय गर्गस्य वचनम् यथा कंसम् नागायित तथा अवधिष्ठाम् लीलियैव पशुनिव मृगाधिपः तालत्रयम् महासारम् धनुर्यष्टिमिवे भराट् भवञ्जकैकेन हस्तेन नह सप्ताहमदथाद्गिरिम्